सम्प्रति वार्ता श्रयन्ता साधनाशर्मा प्रधानमन्त्री श्रीनरेन्द्रमोदी न्यगदत् यत् विश्वे अर्थव्यवस्थायां निवेशकेभ्य भारतं अनुकूलतमं विद्यते भारतीय जनता पार्टीति दलेन आपातकालस्य त्रिचत्वारिंशत् वर्षस्य पूर्त्यवसरे आमान्यते। आमान्यत अपि च विदेशमन्त्री सुषमा स्वराज भारतयात्रायां समागताय सेशेल्स देशस्य राष्ट्रपतये द्वितीयं डॉर्नियर विमानं समर्पितवती प्रधानमन्त्री नरेन्द्रमोदी न्यगादीत् यत् भारतं विश्वे निवेशकेभ्य अर्थव्यवस्थास् अनुकूलतमं विद्यत यतोहि निवेशकेभ्य तत्सौविध्यम् उपलब्धम् अस्ति यस्य सर्वेषामपेक्षा भवति अद्य मुम्बय्यां ए आई आई एशिया महाद्वीपीय आधारभूत संरचना निवेश बैंकस्य वार्षिकोपवेशनस्य उद्घाटने मोदिना इदं प्रोक्तमस्ति प्रधानमंसी भारतीय जनता पार्टीति दल कृष्णदिवस अद्य आमन्यत पंचसप्तत्युत्तर एकोनविंशतितम ईसीया जूनमासस्य पंचविंशतितम दिनांक तत्कालीना प्रधानमन्त्री इन्दिरा गांधी आपातकालं प्रावर्तयत प्रधानमन्त्री न्यगदत् यत् आपातकालस्य चत्वारिशत् वर्षस्य पूर्तो कृष्णदिवस आमान्यते अस्योद्देश्यं कांग्रेसदलस्य आलोचना न विद्यते अपित् संविधानाय जनानां ज्ञानं स्यात् इति उद्देश्यम् जम्मूकश्मीरे अद्य भारतीय जनता पार्टीति दलेन लोकतन्त्रं रक्ष इति दिवस आमान्यते विदेश सुषमा विदेशमन्त्री सुषमा स्वराज अद्य नवदिल्ल्यां द्वितीयं डॉर्नियर विमानं सेशेल्स से देशस्य राष्ट्रपतये अन्तोनिन् रोलिन् पुरे महोदयाय पुे महोदयावसरस्मिन् स्वराज निगदितं यत् सा विश्वसिति यत् अनि विमान सल्स देशस्य जलधौ कीदृशी स्थिति वर्तते इदं ज्ञातुं शक्यते। तया उदीरितं यत् उभौ दर्षौ विकासाय समुद्रक्ष्य सुरक्षायै प्रतिज्ञाबद्धौ राजपस्कार राष्ट्रपति रामनाथकोविन्द अद्य नवदिल्ल्यां मद्य पदार्थस्य मादक पदार्थानां च व्यसनात् मोचनार्थम् उत्कृष्टरूपेण कार्यरताभ्य संस्थाभ्य कार्यरतेभ्य जनेभ्यश्च राष्ट्रियप्रस्कारै सम्मानितवान् अवसरेऽस्मिन् राष्ट्रपतिना भणितं यत् जनै व्यसनं त्यक्तव्यम अमेरिका अमेरिकादेशेन देशे सह अवैधरूपेण प्रवेशता प्रवासीना जनानाम आपराधिक विवाद प्रवर्तन संताहर सामवाये एसोसिएटेड प्रैसारेण सीम शुक सीरक्षण से आयुक्त केविन मैकली प्रोकवान्ष्ट्रपतिड ट्रंप से आदेश अभूत भारत पाकिस्ता प्रोत्तवा यत् भाषनेना सत्यता न परिवर्तयेत् यत् जम्मूकश्मीरप्रदेश भारतस्य अविभाज्य अंगोऽस्ति पाकिस्तानस्य दूतेना मलीहा लोधिना संयुक्तराष्ट्र महासभायां चर्चयता जम्मूकश्मीरस्य वर्णनं कृतम् इदानीं पुनरेकदा मुख्यवार्ता प्रधानमन्त्री प्रधानमन्त्री नरेन्द्रमोदी न्यगदत् यत् विश्वे अर्थव्यवस्थायां निवेशकेभ्य भारतम् अनुकूलतमं विद्यते भिदिवस भारतीय जनता पार्टीति दलि आपातकालस्य त्रिचत्वारिंशत् वर्षस्य पूर्त्यवसर कृष्णदिवस आमान्यत अपि च विदेशमन्त्री सुषमा स्वराज भारतयात्रायां समागताय सल्ल्स दर्शस्य राष्ट्रपतये द्वितीयं टॉर्नियर विमानं समर्पितवती